श्रीमद्भागवहापुराणादश स्कंध द्वांशोध्याय दृग्रपमक वपुर तंधे परस्पर से यत आत्मा पर आद्य स्वयानुभूतिखि सिद्ध सिद्धि एवं त्वगादिश्रवणादि चक्षुर्जिह्वादिनाशादि च चित्तयुक्तम् योऽसौ गुणक्षोभकृतो विकारप्रधानमूलान् महत प्रसूतः अहं त्रिविन्मोहविकल्पहेतुर्वैकारिकस्तामसि ऐन्द्रियश्च आत्मा परिज्ञानमयो विवादो हस्तीति नास्तीतिभिदार्शनिष्ठः व्यर्थोऽपि नैव परमेत पुंसां मत्तपरावृत्तधियां शलोकात् उद्धौ उवाच त्वत्तपरावृत्तधिय स्वकृतैः कर्मभिप्रभो उच्चावचान् यथा देहान् गृह्णन्ति विसृजन्ति च तन्ममाख्या हि गोविन्द दुर्विभाव्य मनात्मभिः न हि तत्प्रायशो लोके विद्वांस सन्ति वञ्चिताः श्रीभगवानुवाच मनः कर्ममयम् नृणामिन्द्रियै पञ्चभिर्यतम् लोकालोकम् परम्प्रयात्यन्य आत्मा तदनुवर्तते ध्यायन्मनो नो विषयान् दृष्टान् वानुसृतानथ उद्यत्सीदत्कर्म तन्तं श्रुते तदनुसाम्यते विषयाभिनिवेशेन नात्मानं यत् विस्मरेत् पुनः जन्तोर्वै कस्यचिद्धोतोर्मृत्युरत्यन्तविस्मृतिः जन्मत्वात्मतया पुंस सर्वभावेन भूरिद विषयस्वीकृतिम् प्राहुर्यथा स्वप्नमनोरथः स्वप्नम् मनोरथम् तेत्थम् प्राक्तनं न स्मरत्यसौ तत्र पूर्वमिवात्मानम् अपूर्वम् चानुपश्यति इन्द्रियाय न शिष्ट्येदम् त्रैविध्यम् भाति वस्तुनि बहिरन्तर्भिदाहेतुर्जनो सज्जनकृद्यथा नित्यदाभ्यङ्गभूतानि भवन्ति न भवन्ति च कालीनालक्ष्यवेगेन सूक्ष्मत्वात्तन्न दृश्यते यथार्चिषां स्रोतसां च फलानाम् वा वनस्पतेः तथैव सर्वभूतानां वयोवस्थादय कृताः सोऽयम् दीपोर्चसां यद्वत्स्रोतसाम् तदिदम् जलम् सोऽयम् पुमानितीर्णृणाम् मृषा गेधिम् वृषायुषाम् मा स्वस्य कर्मबीजेन जायते सोऽप्ययम् पुमान् मृते वामरोभ्रान्त्याम् यथाग्ने दारुसंयुतः निशे गर्भजन्मानि बाल्यकौमारि यौवनम् वयो मध्यम् जरा मृत्युरित्यवस्था तनोर्नव एतामनोरथमहे ह्यन्यस्योच्चावचास्तनुः गुणसङ्गादुपादत्ते क्वचित् कश्चित् जहाति च आत्मन पितृपुत्राभ्याम् अनुमेयौ भवाप्यौ न भवाप्येव अभिज्ञो द्वे लक्षणः यो विद्वान् जन्म संयमौ तरोर्विलक्षणो द्रष्टा तनो पृथक् प्रकृतेरेवमात्मानम् अविद्याबुध पुमान् तत्त्वेन स्पर्शसम्मूढ संसारम् प्रतिपद्यते तत्त्वसङ्गादिशिन् रजसां तुर्मानुषान तमसा भूततिर्यक्त्वम् भ्रामितो याति कर्मभि नित्यतो गायत पश्यन् यथैवा नो एवम् बुद्धे गुणान् पश्यन्ननीहोऽप्यनुकार्यते यथाम्भसा प्रचलता सर्वोऽपि चला इव चक्षुषा भ्राम्यमाणेन दृश्यते भ्रमतिव ब्रू यथा मनोरथधियो विषयानुभवो मृषाम् स्वप्नदृष्टा सदासार्ह तथा संसार आत्मनः अर्थै च विद्यमानेऽपि संस्कृतिर् निवर्तते ध्यायतो विशयानस्य स्वप्ने नर्थागमो यथा तस्माद्दुद्धवमा भुक्ष्व विशयानसदिन्द्रियैः आत्मा ग्रहणनिर्भातम् पश्य वैकल्पिकम् भ्रमम् क्षिप्तोऽपमानि सद्भिः प्रलब्धोऽसूयितोऽथवा ताडित ताडितसन्निबद्धो वा वृत्त्या वा परिहापितः निश्चितोमुद्यतो भाग्यै बहुदैवं प्रकम्पितः सेयस्कामकृगत आत्मनात्मानमुद्धरेद् बुद्धौ उवाच यथैव मनुबुद्धेयं वदनो वदतां वर सुदुस्सहमिमं मन्ये आत्मन्य सदतिक्रमम् विदुषामपि विश्वात्मन् प्रकृतेर्हि विलीयसे ऋते त्वद्धर्मनिरतान् शान्तास्ते चरणालयान् ते श्रीमद्भागवते महापुराणे पारमहंसां सहितायाम् एकादशस्कन्धे द्वाविंशोऽध्यायः